हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे चतुर्विंशति अधिकशतसमत्सर्गः भरद्वाजाश्रमे अवतीर्य श्रीरामेण महर्षेर्दर्शनम् ततो वरग्रहणम् च पूर्णे चतुर्दशे वर्षे पञ्चम्याम् लक्ष्मण अग्रजे भरद्वाजाश्रमम् प्राप्य भवन्दे नियतो मुनिम् स्वपृच्छदभिवाद्यनम् भरद्वाजम् तपोधनम् शृणोमि कश्चिद् भगवन् सुभिक्षा नामयम् पुरे कश्चित् स भरतो जीवन्त्यपि च मातरः एवम् उक्ता सुरामेण भरद्वाजो महामुनिः प्रत्युवाच रघुश्रेष्ठम् स्मितपूर्वम् प्ररुष्टवत् अन्यावश्यत्वे भरतो जटिलस्त्वाम् प्रतीक्षते पादुकेते पुरस्कृत्य सर्वं च कुशलं गृहे त्वां पुरा क्षेरवसनम् प्रविशन्तम् त्रीतृतीयम् च तं धर्मकामं च केवलं पदातिं त्यक्त पितृनिर्देशकारिणम् सर्वभोगैः परित्यक्तम् स्वर्गच्यूतम् इवामरम् दृष्ट्वा तु करुणा पूर्वम् ममासीत् समितिञ्जय्य कैकै वचने युक्तम् वन्यमूलफलाशिनम् साम्प्रतम् तु समृद्धार्थम् समित्र गणबान्धवम् समीक्ष्य विजितारिञ्च मम भू प्रीति उत्तमा सर्वं च सुखदुःखं ते विदितं मम राघव यत् त्वया विपुलं प्राप्तं जनस्थान निवासिना ब्राह्मणार्थे नियुक्तस्य रक्षत सर्वथापसान् रावणेन हृता भार्या बहुवेयम् अनिन्दिता मारी च दर्शनं चैव शीतोन्मथनमेव च कबन्धदर्शनं चैव पम्पाभिगमनं तथा सुग्रीवेण च ते सख्यं यत्र हतर्तया मार्गणं चैव वैदेह कर्म वार्ताद्मजस्य च विदितायां च वैदेह्यां नरसेतुर्यथा कुतः यथा, यथा चादीपितालङ्कार ृष्टै हरियूथपै स पुत्र बान्धवा मात्य सबलः स वाहनः यथा च निहत संख्ये रावणो बलदर्पितः यथा तस्मिन् रावणे देवकण्टके समागमश्च त्रिदशे यथा दत्तः च तेवरः सर्वं तपसा धर्मवत्सल सम्पतन्ति च मे शिष्य प्रवृत्ताख्या पुरीमित अहम् अप्यत्र ते दद्मि वरं शस्त्रभृताम् वर अर्घ्यं प्रति गुहाणेदम् अयोध्यां श्वो गमिष्यसि तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः बाढम् इत्येव संवृष्ट श्रीमान् वर्म अकाले फलिनो वृक्षा सर्वे चापि मधुस्रव फलानि मृतगन्धीनि बहूनि विविधानि च भवन्तु मार्गे भगवन् अयोध्यां प्रतिगच्छत् तथेति च प्रतिज्ञाते वचनात् समनन्तरम् अभवन् पादपा तत्र स्वर्गपादपसन्निभ निष्फलाफलिनश्चासन् विपुष्पा पुष्पजालिनः शुष्कासमग्रपत्रास्ते नगाश्चैव मधुश्रवः सर्वतो योजना तिस्रो गच्छतां न भवन्त प्रवृष्टाः प्रदर्श्य भास्ते बहूनि दिव्यानि फलानि चैव कामादुपासन्ति सहस्रश मुदान वीता सहर्गजितो यथैव इत्याशी श्रीमद् रामायणे वाल्मीकी अधिकारी युद्धकाण्डे चतुर्विंशति अधिकशततमः सर्गः श्रीसीता रामचन्द्रार्पणमस्तु